कृष्णयजुर्वेदे क्रमपाठे द्वितीयकाण्डे चतुर्थः प्रश्नः प्रारम्भः देवा मनुष्याः पितरः पितरस्ते ते अन्यतः अन्यत आसन् आसन्नसुराः असुरा रक्षागुंसि रक्षागुंसि पिशाचाः पिशाचास्ते पि अन्यतस्तेषाम् तेषाम् देवानाम् देवानाम् मुता उपजयत् यदल्पम् अल्पम् लोहितम् लोहितमकुर्वन् अकुर्वन् तत् तद्रक्षापुंसि रक्षागुंसि रात्रिभिः रात्रिभिरसुभ्नन् रात्रिभिरितिरात्रिभिः तान् शुद्धान् शुद्धान् मृतान् मृतानभिः अरोचत् रोच्छत्ते ते, ते, ते देवाः देवा अविदुः अविदुर्यः यो वै वैनः म्रियते मृजते रक्षागुंसि रक्षागुंसि वै त्वा इमम् इमम् घ्नन्ति घ्नन्तीति ते ते रक्षागुंसि रक्षागस्यप अपामन्त्रयन्त अमन्त्रयन्त तानि अब्रुमन्वरम् वरम् रामै रामरान् असुरान् जयाम जयाम तत् तन्नः नः सः सहासत् असमिति ततो वै देवाः देवा असुरान् असुरान् अजियन्ते ते असुरान् जित्वा जित्वा रक्षाकुंसि रक्षाकस्य अपानुदन्त अनुदन्ततानि तानि रक्षाकुंसि रक्षाकस्य अनृतम् अनृतमकर्त अकर्तेति इति समन्तम् समन्तम् देवान् समन्तमिति समन्तम् देवान् परि पर्यवशन् ते देवाः देवा अग्नौ अग्नावनाथन्त अनाथन्तरे ते दे अग्नये पृते पवते प्रोडासम् प्रवदे प्रवते प्रोडाशमष्टाकपालम् अष्टाकपालन्निः अष्टाकपालन्त्यष्टाकपालम् निरवपन् अवपन् अग्नये अग्नये विबाधवते विबाधवते अग्जे विबाधवते इति विबाधावते अग्नजे प्रतीगवते प्रतीगवते यत् प्रतीगवते इति प्रतीकावते यदग्न अग्नगे प्रवते प्रवतैरि प्रावते निरवपदयानि निरवपण्डितिनिः अवपन् यान्येव एव पुरस्ताहात् पुरस्ताद्रक्षागुंसि रक्षागस्यासन् आसन्तानि तादितेन तेन प्र प्राणुदन्त अनुदन्तयत् यदग्ये अग्नये विबाधवते विबाधवते यानि इति विबाधवते यान्येव एवाभितः अभितो रक्षागुंसि रक्षागस्यासन् आसन्तानि तादितेन तेन वि व्यबाधन्त अबाधन्त यत् यदगरे यद अग्रे प्रतीकवते प्रतीकवते यानि प्रतीकवते इति प्रतीकवते यान्येव एव पृष्ठात् पृष्ठाद्रक्षाकंसि द्रक्षादस्यासन् आसन् तानि तानि तेन तेनाप तेना अपानृदन्त अनृदन्ततः ततो देवाः देवा अभवन् देवा अभवन्पराः अभवन परासुराः असुरायः यो भ्रातृर्यवान् भ्रातृव्यवान् स्यात् भ्रातृव्यवान् इति भ्रातृवान् स्यात् सः स स्पर्धमानः स्पर्धमान एतयाः एतयेष्ट्याः इष्ट्याचेत य चेताग्नये अग्नये प्रबले प्रवदे प्रोडासम् प्रवत इति प्रावतेः प्रोडासमष्टाकपालुम् अष्टाकपालनिः अष्टाकपालमित्यष्टाकपालुम् निर्भवेत् प्रपेदग्नये अग्नये विबाधवते इति विबाधावते अग्नये प्रतीपवते प्रतीतवते यत् प्रतीतवते इति प्रतीदावते यदग्नये अग्नये प्रवदे प्रवदे प्रावते निर्भपति निर्भवतीतिनि भवति यजेवा एव एवास्मात् अस्माच्छ्रेयान् श्रेयान् भ्रातृव्यः भ्रातृव्यस्तम् वन्देन तेन प्र प्रणुदते मुदते यत् यदग्नये कन्नये विबाधवते विबाधवते यः विबाधवते इति विबाधावते य एव सदृङ् सदृङ्गम् सदङ् इति सादृङ् पनन्देन तेन विबाधते अबाधते यत् यदग्नये प्रतीकवते प्रतीकवते यः प्रतीकवते इति प्रतीकवते य एव एवास्मात् तस्माभियान् पापीयान्तम् तन्तेन तेनाप अपनदते मुदते प्र श्रेयापुंसम् श्रेयापुंसम् भ्रातृव्यम् भ्रातृव्यम् नदते नदतेति अतिसदृशम् सदृशम् क्रामति क्रामति नैनम् एनम् पापीयान् पापीयानाप्नोति आप्नोति यः एवम् विद्वान् विद्वानेतयाः एतयेष्ट्याः इष्ट्या यजते यजत इति यजते देवासुराः संयत्ताः देवासुरा इति देवासुराः संयत्ता इति सां यत्ताः देवा अब्रुवन् अब्रुवनयः यो नः वीर्यावृत्तमः वीर्यावर्तम इति वीर्यावतमः रमणो ननु समारभामहै इति समारभामः इति संमारभामहै इति ते तैन्द्रम् इन्द्रमब्रुवन् अब्रुवन् त्वम् त्वम् वै वैनः वीर्यावत्तमः वीर्यावत्तमोऽसि वीर्यावर्तम इति वीर्यावत् तमः असि त्वाम् रामनु अनु समारभामहै इति समारभामः इति संमारभामहै इति सः सोऽब्रवीत् अब्रवीतिः सह सोमे महिमाः इमाः सर्वः नवो वीर्यावतीः वीर्यावतीस्ताः वीर्यावतीरिति वीर्यावतीः ताः प्रेणेत वै वयि ब्रूहि ब्रूहिदि इत्यब्रुवन् अब्रुवन् यम् होमग अगुम् होमगियम् अगुम् होमगित्यगुम् हामुग् ृधे दिवी मृधा इयमिन्द्रियावती इन्द्रियावतीति इन्द्रियावतीति इन्द्रियावती इत्यब्रवीत् अब्रवीते त इन्द्राय इन्द्रायुहोमुचे अरुंहौमुचे प्रोडासमे। प्रोडाशम्भोमुचि इत्यबुंहामुचे पुरोडाशमेकादशकपालम् एकादशकपालन्निः एकादशकपालमित्येकादशाकपालम् इदपन् अवपन्मिन्द्राय इन्द्राय वैमृधाय वैमृधायेन्द्राय इन्द्राय इन्द्रियावते इन्द्रियापते यत् इन्द्रियापत इति इन्द्रियावते यदिय इन्द्राय गुम्भामुचे निरवपन् अगुम् इत्यगुहामुचे निरवपन्नगुंहसः निरवपन्निति निहावपन् अगुंहस एवतेन तेनामुच्यन्त अमुच्यन्त यत् यदिन्द्राय इन्द्राय वै मृधाय वै मृधाय मृधः मृध एव एव तेन घट अघत यत् यदिन्दय तेन आत्मन्न दधत अगतद त्रयस्त्रिकं सत्कपालम् त्रयस्त्रिकम् सद्गपालम् प्रोढाशम् त्रयस्त्रिकं शत्कपालम् त्रयस्त्रिकं सत्कपालम् त्रोढाशण्णिः निरवपपपन् अपपन् त्रयस्त्रिविंशत् त्रयस्त्रिविंशद्वै त्रयस्त्रिविंशदिति त्रयः त्रिविंशत् वै देवताः देवतास्ताः ता इन्द्रः इन्द्र आत्मन् आत्मन्ननु ननु समारम्भयत समारम्भयत भूत्यैः समारम्भयतेति समारम्भयत भूद्विताम् म् वावदेवाः देवा विजितिम् विजितिमुत्तमा विजितिमिति विजितिम् उत्तमाम् असुरैः उत्तमामित्युत्तमाम् असुरैर्विजेन्द्र अजयन्तयः यो भ्रातुर्यवान् भ्रातुर्यवान् स्यात् भ्रातुर्यवान् जिभ्रातु्यावान् स्यात्सः स स्पर्धमानः स्पर्धमान एतया इष्ट्याय चेत यजेतेन्द्राय इन्द्राय अगुम्होमुचे अगम् होमुचे प्ररोडाशम् अगम् होमुच इत्यगुं हामुचे प्ररोडाशमेकादशकपालम् एकादशकपालन्निः एकादशकपालमित्येकादशाकपालम् निर्वपेर्पेदिन्द्राय इन्द्राय वै मृधाय वै मृधाय इन्द्राय इन्द्राय इन्द्रजावदे इन्द्रजयावदे गुंहसा इन्द्रजावीन्द्रियावदे अगुं हसा वै वा एष गृहीतः गृहीतो यस्मात् यस्माच्छ्रेयान् श्रेयान् भ्रातृव्यः भ्रातृव्यवौ यत् यदिन्द्राय इन्द्राया गंहो मुचेः अगुम्होमुचे निर्वपति अगम्होमुचै इत्यगुंहमुचे निर्वपत्यगुंहसः निर्वपतीति निहे वपति अगुंहसेव एव तेन तेन मुच्यते मुच्यते मृधा मृधा वि वा एषः एषोऽभिषण्णः यस्मात् अभिषण्ण इत्यभिसन्नः यस्मात् समानेषु समानेष्वन्यः अन्यश्रेयान् श्रेयानुता उत भ्रातृव्यः अभ्रातृव्यो इन्द्राय वै वृथाय वै वृथाय वृधः एव तेन तेनाप अपहते हते यत् यदिन्द्राय इन्द्राय इन्द्रियावत इन्द्रियम् इन्द्रियावत इति इन्द्रियावते इन्द्रियमेव एव तेन तेनात्मन् आत्मन्धत्ते त्रयस्त्रिकम् शत्कपालम् त्रयस्त्रिकं शत्कपालम् प्रोडाशम् त्रयस्त्रिकंसत्कपाल त्रयस्त्रिगिंशत्कपालम् प्रोडाशङ्ः निर्पपति अपदि त्रयस्त्रिपुंसत् त्रयस्त्रिगिंशद्वै त्रयस्त्रिकंसदि त्रयः त्रिपुंसत् वै देवताः देवतास्ताः एव यजमानः यजमान आत्मन् आत्मन्ननु अनुसमारम्भयते समारम्भयते भोद्यैः समारम्भयत इति सम् आरम्भयते भोक्ति सा सा वै वा एषा एषा विजितिः विजितिर्नाम विजितिरिति विजितिः मामेष्टिः इष्टिर्यः ययेवम् एवम् विद्वान् विद्वानेतया एतयेष्ट्या इष्ट्या विजते यजत उत्तमाम् उत्तमामेव उत्तमा विद्युतो तमा एव विजितिम् विजितिम् भ्राद्रव्येण विजितिमिति विजितिम् भ्रातृण विजयते जयत इति जयते देवासुराः संयत्ताः देवासुराकु देवासुराः संयत्ताः सन् संयत्ता इति संयक्ताः आसन् गायत्री गायत्र्योऽजः ओजो बलम् बलमिन्द्रियम् इन्द्रियम् वीर्यम् भजाम् प्रजाम् पशून् प्रजामिति प्राजाम् पशून् सङ्गृह्य सङ्ग्रह्यादाय आदायापक्रम्य आदायेत्यादाय अपक्रम्यातिष्ठत् अपक्रम्येत्यपाक्रम्य अतिष्ठत्ते ते मन्यन्त अमन्यन्त यतरान् यतरान् वै वा इयम् इयमुपावर्स्यति उपावर्स्यति ते उपावर्त्स्यतीत्युपा आवर्स्यति त इदम् इदम् भविष्यन्ति भविष्यन्तीति इति ताम् ताम् विह्वयन्त अह्वयन्त विश्वकर्मन् विश्वकर्मन् विश्वकम्म विश्वाकम्मम् इति देवाः देवादाभिसुराः असुराः सा नान्यतलान् अन्यतला कश्चन तनोपावर्तत उपावर्ततते उपावर्तते आवर्तत ते देवाः देवा एतत् एतद्विजुः यदुरपश्यन् अपश्यन्नोजः ओजोऽसि असि सहः सहोऽसि असिबलम् बलमसि असिभ्राजः भ्राजोऽसि असि देवानाम् देवानाम् धाम नामा, नामासि असि विश्वम् विश्वमसि असि विश्वायुः विश्वायुः सर्वम् विश्वायुरिति विश्वायुः सर्वमसि असि सर्वायुः सर्वायुरभिभोः सर्वायुरिति सर्वायुः अभिघोरिति अभिघोरित्यभिभोः इति वाव आवदेवाः देवासुराणाम् असुराणामोजः बलम् बलमिन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् प्रजाम् प्रजाम् पशोन् प्रजामि अपरञ्जत यद् यद्रायत्री गायत्र्यपक्रम्य अपक्रम्यातिष्ठत् अपक्रम्येत्यपाक्रम्य अतिष्ठत्तस्मात् तस्मादेताम् एतान् रायत्री रायत्रीति इतिष्टिम् इष्टिमाहुः आहुः संवत्सरः संवत्सरो वै संवत्सर इति संवत्सरः वै गायत्री गायत्री संवत्सरः ैतत् तदपक्रम्य अपक्रम्यातिष्ठत् अपक्रम्येत्यपक्रम्य अतिष्ठद्यत् यदेतया एतया देवाः देवा दे असुराणाम् असुराणामोजः ओजो बलम् बलमिन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् प्रजाम् प्रजाम् अशून् प्रजामि यत् प्राजाम् अशून् अव्रञ्जत अव्रञ्जत संवर्ग इति संवर्गयति संवर्गः इति इष्टिम् इष्टिमाहुः स्यात् भ्रातृव्यवान् इति भ्रातृव्यवान् स्यात् सः स स्पर्धमानः स्पर्धमान एतयाः एतयेष्ट्याः इष्ट्या चेत संवर्गाय संवर्गाय संवर्गाय प्रोढाशमष्टाकपालम् अष्टागपालङ्गिः अष्टागपालमित्यष्टागपालम् निर्वपेत् उपेत्तम् तदम् श्रुतम् श्रुतमासन्नम् आसन्नमेतेन आसन्नमित्यासन्नम् एतेनैजुषा यजुषाभि अभिमृषेत् मृषेतोजः ओज एवबलम् बलमिन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् व्रजाम् वजाम् वृषून् व्रजामिति प्राजाम् वसूणन् धातृव्यस्य भ्रातृव्यस्य वृन्दे वृन्दे भवति भवत्यात्मना आत्मना परा परास्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवतीति भवति प्रजापतिः प्रजाः प्रजापतिविधिः प्रजापतिः प्रजा असृजत प्रजा यत्प्रजाः प्रसृजताः ता अस्मात् अस्मात्सृष्टाः सृष्टाः पराचीः पराचीरायन् यन्ताः ता यत्र यत्रावसन् अवसन्ततः ततो गर्मुद् गर्मुदुद् उदतिष्ठत् अतिष्ठत्ताः ता बृहस्पतिः बृहस्पतिश्च तान्वयिताम् अन्ववयैता पुंसः अन्ववयितामित्यनो अवैताम् सोऽब्रवीद् अब्रवीर्बृहस्पतिः बृहस्पतिरनयाः अनयाः त्वाप्रदिष्टानि तिष्ठान्यथा अथ वा प्रजाः प्रजा उपावर्त्स्यन्ति प्रजावतिप्रजाः उपावर्त्स्यन्तीति उपावर्स्यन्तीत्यव आवर्त्यन्ति प्रातिष्ठत् अतिष्ठत्ततः ततो वै वै प्रजापतिम् प्रजापतिम् प्रजाः प्रजापतिमिति प्रजापतिम् प्रजा उपावर्तन्त प्रजा इति प्राजाः उपावर्तन्तयः उपावर्तन्ते इत्येव आवर्तन्त यः प्रजागामः प्रजागाम इति प्रजागामः स्यात्तस्मैः तस्मा एतम् एतम् प्राजापत्यम् प्राजापत्यङ्गामृतम् प्राजापत्यमिति प्राजापत्यम् रामृतम् चरम् चरन्निः निर्वपेत् उपेत् प्रजापतिम् प्रजापतिमेव प्रजापतिमिति प्रजापतिम् एतस्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति उपधावति धावति स एव एवास्मैः अस्मै प्रजाम् प्रजाम् प्रजापतिप्राजाम् प्रजनयति जनयति प्रजापतिः प्रजापतिः पशून् प्रजापतिभृति प्रजापतिः पृशून् सृजत असृजते ते यस्मात् अस्मात्सृष्टाः सृष्टाः पराञ्चः पराञ्चायन् आयन्ते ते यत्रावसन् अवसन्ततः ततो घर्मत् धर्मदत् उदतिष्ठत् अतिष्ठत्तान् तान् पूषा पूषा च चानुरीताम् अन्वयीता पुंसः अन्वीतामित्यनो अवीताम् सोऽब्रवीत् अब्रवीत् पूषा पूषानया अनयामा मात्र अतिष्ठ तिष्ठाथ अथ त्वा त्वापशवः पशव उपावर्त्स्यन्ति उपावर्त्स्यन्तीति उपावर्त्स्यन्तीत्युवा इति माम् माम् प्रतिष्ठ तिष्ठेति इति सोमः सोमोऽब्रवीत् अब्रवीन्मम मम वै वा अकृष्टपच्यम् अकृष्टपस्यमिति अकृष्टपच्यमित्यकृष्टापथ्यम् इत्युभौ उभौ वाम् प्रा प्रतिष्ठानि तिष्ठानीति इत्यब्रवीर् अब्रवीत्तौ तौ प्रातिष्ठत् प्रतिष्ठप्रतः ततो वै वै प्रजापतिम् प्रसवः प्रजापतिमिति प्रजापतिम् प्रसव उपावर्तन्त यः उपावर्तन्तेत्युपावर्तन्त यः पशुरामः पशुरामः स्यात् पशुराम इति पशुकामः स्यात् तस्मै तस्मादेकम् एतकम् सोमापौष्णम् सोमापौष्णम् गार्मुतम् सोमापोष्णमिति सोमापौष्णम् गार्मुतम् चरम् चरण्यः निर्वपेत् उपेत् सोमाभूषणौ सोमाभूषणामेव सोमाभूषणामिति सोमाभूषणोः एव भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावति तौ तावेव एवास्मैः अस्मै पशून् पशून् प्र रजनयतः जनयतः सोमः सोमो वै वै रेत्रोधाः रेत्रोधाः पूषा धाः पूषा पशूनाम् पशूनाम् रजनयिता रजनयिता सोमः रजनयितेति प्राजनयिता सोम एवास्मैः अस्मैरेतः एति दधाति पूषा पूषा पुशून् पुशून् प्रजनयति जनयतीति जनयति अग्ने गोभिः गोभिर्नः न आ आ गहि गहीन्दोः इन्दो पुष्ट्या इन्द्रो गीन्दोः पुष्ट्या दुषस्व दुषस्वनः नयितिनः धर्ता धर्ता गृहेषु गृहेषु नः नयितिनः सितायः गृहेषु गृहेषु रारणत् रदिति रत् आपूषा पूषा एतौ एत्वा आवसो अस्विदिवसो धाता ददातु ददातु नः नो ईशानो जगतः जगतः स्पतिः पतिरितिपतिः सनः पूर्णेन पूर्णेन वावनत् वावनदिति वावनत् त्वषायः यो वृषभः वृषभो वृषाः वृषा सः समः मम गृहेषु देवामृतम् अमृतम् दीर्घम् दीर्घग्रश्रवः श्रवो दिवि दिव्यैरयन्त ऐरयन्ते त्यैरयन्त राजस्पोष पोषत्वम् त्वमस्मभ्यम् अस्मभ्यम् गवाम् अस्मभ्यमित्यस्माभ्यम् गवान् कुल्मिम् कुल्मिञ्जीवसे जीवसः आयुवस्व युवस्वेति युवस्व अग्निर्गृहपतिः गृहपतिः सोमः गृहपतिरिति गृहापतिः सोमो विश्वमनिः विश्ववनिः सविता विश्ववनिरिति विश्वामनिः सविता सुमेधाः सुमेधाः स्वाहाः सुमेधा इति इति गृहापतेः यस्ते ते धृत्यः भागस्तेन तेन सहः ओजः ओज आक्रममाणाय आक्रममाणाय आक्रममाणायेत्याः क्रममाणाय धेः श्रेष्ठ्यात् श्रेष्ठ्यात्पथः रथो मा मा योषम् योषम् मूर्धा मूर्धा भूयासम् भूयासद्विःस्वाहा स्वाहेतिस्वाहा चित्रायायचेत यचेतपशुरामः पशुराम इयम् पशुकामदितिपुशुकामः इयम् वै वै चित्रा चित्रायत् यद्वै वा स्याम् विश्वम् भूतम् भूतमधि अधिप्रजायते प्रजायतेन प्रजायत इति प्राजायते तेनेयम् इयञ्चित्रा चित्रायः य एवम् एवम् विद्वान् विद्वानश्चित्रयाः चित्रया पृशुरामः पृषुरामो यजते पृशुराम यजते प्रजयाः प्रजया पशुभिः प्रजयेति प्राजयाः पशुभिर्मिथुनैः पशुभिरिति पशुभिः मिथुनैर्जायते जायते प्र प्रयैव एवाज्ञेयेन आ ज्ञेयेन वापयति वापयति रेतः सौम्येना सौम्येन दधाति दधाति रेतः एत एव हितम् हितम् द्रष्टाः प्रष्टारूपाणि रूपाणि विकरोति करोति सारस्वतौ सारस्वतौ भवतः भवत एतद्वै द्वै दैव्यम् दैव्यम् मिथुनम् मिथुनम् दैव्यम् दैवमेव अस्मै मिथुनम् मिथुनम् मध्यतः मध्यतो दधाति दधाति पुष्ट्यैः पुष्ट्यैः प्रजननाय प्रजननाय श्रीवाल्यै प्रजननायतिप्राजननाय श्रीवाल्यै चरुः चरुर्भवति भवति वार् वा्वै वै स्नीवाली स्नीवाली पुष्टिः पुष्टिः खलु खलु एत्यैन्द्रः भवति उपतमयत्युत उत्तमः भवति तेन तेनैव एव तत् तन्मिथनम् मिथुनम् सप्त सप्तैतानि एतानि हवींसि हवींशि भवन्ति भवन्ति सप्त सप्तग्राम्या ्राम्याः पशवः पशवः सर्ता सर्तारण्याः आरण्याः सर्ता सर्तछन्दांसि छन्दागस्य उभयस्य उभयस्यावरुध्ये अवरुद्ध्या अथ अवरुद्ध्या इत्यवरुध्यै रथैताः एताहुरिः आहुदेर्जुहुरि आहुरेर्जाहुदि भवत्येते एते वै वै देवाः देवाः पुष्टिपतयः पुष्टिपदयस्ते पुष्टिपतय पुष्टिपदयः एव एवास्मिन् अस्मिन् पुष्टिम् पुष्टिम् दधति दधति प्रजयाः प्रजयाः यथेति प्राजया वर्षुभिरथोभिरिति वर्षुभिः अथो यत् अथो इत्यथो यदेताः एताहुतिः आहुदेर्जुहोदि आहुतिरित्याहुतिप्रतिष्ठित्यै प्रतिष्ठित्याहुतिप्रतिष्ठित्यै मारुतपसि मरुताम् मरुतामोजः ओजोपाम् अपान्धाराम् धाराम् भिन्धि भिन्धि रमयत रमयत मरुतः मरुतश्येनम् आयम् मनोजवसम् मनोजवसम् वृषणम् मनोजवसमिति मनहाजवसम् वृषणं सुवृत्तिम् सुवृत्यमिति सुवृत्तिम् येन शब्धः श्रद्ध उग्रम् उग्रमवसृष्टम् अवसृष्टमेति अवसृष्टमित्यवासृष्टम् ये तत् तदश्विना अश्विना परि परिधत्तम् धर्तग्रः स्वस्ति स्वस्ति स्वस्ति पुरोवातो वर्षन् पुरोवात इति पुरः वातः वर्षन् जिह्मः जिन्मरावृत् आवृत्साहाः आवृतित्या आवृत् साहा वातावत् वातावद् वर्षन् वातावदिति वातावत् वर्षन्नुग्रः उग्ररावृत् आवृत् साः आवृत्त्या आवृत् साः अस्तनयन् स्तनयन् वर्षन् वर्षन् भीमः भीमरावृत् आवृत्साहाः आवृदित्या आवृत् स्वाहा नशनि नशन्यवस्थोर्जुन् अवस्थोर्जन् यद्युत् अवस्थोर्जन्नित्यवस्फोर्जन् विद्युद्वर्षन् वर्षन् तेषः आवर्त। आवृदित्या आवृत् स्वाहातिरात्रम् अतिरात्रम् वर्षन् अतिरात्रमित्यतिरात्रम् वर्षन् पूर्तिः पूर्तिरावृत् आवृत्साहाः आवृदित्या आवृत् स्वाहा बहु बहुहायन् अयमवृषात् अवृषादिति इति श्रुतः श्रुतरावृत् आवृत्साहाः आवृत्त्या आवृत् साहातपति आतपति वर्षन् आतपतेत्याः आतपति वर्षन् विराट् विराडावृत् विराड् इति वीराट् आवृत्साहाः आवृत्तित्याः आवृत् साहावस्फोर्जन् अवस्फोर्जन् विद्युत् अवस्फोर्जन्नित्यवास्फोर्जन् विद्युद्वर्षन् वर्षन् भूतः भूतरावृत् आवृत्साहाः आवृजित्यावृत् स्वाः मान्दाः मान्दावासाः वाशा शुन्ध्योः शुन्ध्यो रजिराः अजिरा इत्यजिराः ज्योतिष्मतेस्तमस्वरीः तमस्वरेन्द्रगेः उन्द्रगैः सुफेनाः सुफेना इति सोफेनाः मित्रभृतः क्षत्रभृतः नित्रभृत इति मित्राभृतः क्षत्रभृतः सुराष्ट्राः क्षत्रभृत इति क्षत्राभृतः सुराष्ट्राह सुराष्ट्रा इति सुराष्ट्राः इहमा माह मा पत अपतेत्यवत कृष्णो अश्वस्य अश्वस्य सन्धानम् सन्धानमसि सन्धानमिति सन्धानम् दृश्यैः दृष्ट्यैः त्वा तोप उपनश्यामि नश्यामीति नश्यामि देवावसव्याः वसव्या अग्नेः अग्ने सोम सोमसूर्य सूर्येति सूर्य देवाशर्मण्याः कर्मण्या मित्रावृणा मित्रावर्णार्यमन् मित्रावृणेति मित्रा वृणाः I will give them देवाः सपीतयः सपीतयोपाम् सपीतय इति सा पीतयः अपान्नवात् अपादाशु हेमन् आशु हेमन् इत्याशु हेमन् दत्तोदधिम् उदधिम् भिन्त उदधिमित्युदाधिम् भिन्तदिवः दिवः पर्जन्यात् पर्जन्यादन्तरिक्षात् अन्तरिक्षात् पृथिव्याः पृथिव्यास्ततः ततो नः न वृष्ट्याः वृष्ट्यावत अपदेत्यवत इवाचित् चित्तमः कृण्वन्ति पर्जन्येन दवाहेन, उदवाहेनेत्विदावाहेन पृथिवीं यत् यद्व्युन्दन्ति व्युन्दन्तीतिवि वुन्दन्ति आयम् यन्नरः नरः सुदानवः सुदानवो ददाशुषे सुदानवहिति सुदानवः ददाशुषे विवह विवः कोशम् कोशमचुच्छ्यभुः अजुच्यभुरित्यजुच्यभुः विपर्जन्याः नो रोदसी इति रोदसी अनुधन्मना धन्मना वृष्टयः वृष्टय इति वृष्टयः उदीरयथ ईरयथा मरुतः पुरुतः समुद्रतः समुद्रतो यूयम् यूयम् वृष्टिम् वृष्टिम् वर्षयथा पुरेषिणः पुरेषिण इति पुरेषिणः नवः गोदस्राः दस्रा उप उपदस्यन्ति दस्यन्ति धेनवः धेनवः शुभम् शुभम् याताम् यातामनो अनुरथा आह रथा अवृत्सत अवृत्सतेत्यवृत्सत सृजा वृष्टिम् दिवः विवाहाभिः अद्भिः समुद्रम् अद्भिरित्यभिः समुद्रम् वृण प्रणेति प्रण अब्जा असि अब्जा इत्युजाः असि प्रथमजाः प्रथमजाबलम् प्रथमजा प्रथमाजाः बलमसि असि समुद्रियम् समुद्रियमिति समुद्रियम् उन्नम्भय नम्भय पृथिवीम् पृथिवीम् भिन्धि भिन्धि इदम् इदम् दिव्यम् नभः नभ नभः उद्नो दिव्यस्य दिव्यस्य नः नो ते ईशानः ईशानो विसृजा सृजा धृतिम् धृतिमिति धृतिम् ये देवादिविभागाः दिविभागाय दिविभागा ये अन्तरिक्षभागाः अन्तरिक्षभागाय अन्तरिक्षभागा इत्यन्तरिक्षाभागाः ये पृथिविभागाः पृथिविभागा इति पृथिवीभागाः त इमम् इमम् यज्ञम् यज्ञमवन्तु भवन्तुते त इदम् गङ्क्षेत्रम् क्षेत्रमा आविशन्तु विशन्तुते तहिदम् गङ्क्षेत्रम् क्षेत्रमनु अनुवि इविशन्तो इशन्ति विशन्तो मारुतमसि असि मरुताम् मरुतामोजः ओजैरि इति कृष्णम् कृष्णम् वासः वासः कृष्णतोषम् कृष्णतोषम् परि कृष्णतोषमिति कृष्णातोषम् परि धत्ते धत्त एतत् एतद्वै वैवृष्ट्यैः वृष्ट्यैरूपम् रूपकं सरूपः सरूप सरूप इति स एव भूत्वा भूत्वा पर्जन्यम् पर्जन्यम् वर्षयति वर्षेति रमयत रमयत मरुतः मरुतः श्येनम् श्येनमायिनम् आयनमिति इति पश्चाद्वातम् पश्चाद्वातम् प्रति पश्चाद्वातमिति पश्चात् वातम् प्रतिमीवति मीवति पुरोभातम् पुरोवातमेव पुरोवातमिति पुरः वातम् एव जनयति जनयति वर्षस्य वर्षस्यावृद्धि वर अवरुद्धि वातनामाणि अवरुद्ध्यादित्यवावृद्धिः पातनामानि च भवति आतनामानीति आत पाता नामानि भवति वायुः वायुर्वै वै वृष्ट्या आह वृष्ट्या ईशे ईशे वायुम् वायुमेव एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एव एवास्मै अस्मै पर्जन्यम् पर्जन्यम् वर्षयति शिभोति चतस्रः चतस्रो वै वै दिशः दिशश्चतस्रः चतस्रोवान्तरदिशाः अवान्तरदिशादिभ्यः अवान्तरदिशान्तरदिशाः दिग्भ्य एव दिग्भ्य इति कभ्यः एव वृष्टिम् वृष्टिपुंसम् सम्प्रत्याभयति स्याभयति कृष्णार्जिने कृष्णार्जिने इति कृष्णानजिने संयोति योति हविः कविरेव एवाकः अकरन्तर्वेदि अन्तर्वेदि सम् अन्तर्वेदीत्यन्तः वेदि संयौति यौत्यवरुद्ध्यै अवरुद्ध्यै यतीनाम् अवरुद्ध्या इत्यवृद्धिः यतीनामद्यमानानाम् अद्यमानानाम् शीर्षाणि शीर्षाणि पराः परापतन् अपतन्ते ते खर्जूरा आह खर्जूरा अभवन् अभवन् तेषाम् तेषाम् रसः रस ऊर्ध्वः ऊर्ध्वोपतत् अपदत्तानि तानि करीराणि करीराण्यभवन् अभवन् सौम्यानि सौम्यानि वै वै करीराणि करीराणि सौम्या सौम्या खलु खल्वै वा आहुतिः आहुतिर्दिवः आहुतिरित्याहुतिः दिव वृष्टिम् वृष्टिम् स्यावयति स्यावयति यत् यत्करीराणि करीराणि भवन्ति भवन्ति सौम्यया सौम्ययैव एवाहुत्या आहुत्या दिवः आहुत्येत्याहुत्या दिवा वृष्टिम् वृष्टिमव अवरुन्धे रुन्धे मधुषा मधुषासम् संयौति यौत्यपाम् अपाम् वै वा एषः एषवोषधीनाम् ओषधीनामुं रसः न शो यत् यन्मधु एवौषधीनः ओषधीभ्यो वर्षति ओषधेभ्यैत्यौषधेभ्यः वर्षन्त्यथो गो रथो रभ्यः रथो इत्यथोगो रभ्य एव अभ्य इत्यभ्यः एवषधीभ्यः ओषधेभ्यो वृष्टिम् ओषधेभ्यैत्यौषधेभ्यः वृष्टिम्नि नयति नयति मान्द्राः मान्द्रावासाः वासा इति संयौति यौति नामधेयैः नामधेयैरेव नामधेयैरिति नामाधेयैः एवैनाः एनाच्छ अर्च्छति एत्यथोः अथो यथा अथोरित्यथो यथा ब्रूयात् ब्रूयादसौः असावा एहि इहीति इत्येवम् एवमेव एवैनाः एनामधेयैः रामधेयैलामधेयैरिति नामधेयैः आख्यापयति चावयति वृष्णः कृष्णो अश्वस्य अश्वस्य सन्धानम् सन्धानमसि सन्धानमिति सन्धानम् असि वृष्ट्यैः वृष्ट्यैः त्वा तोप उपनह्यामि नह्यामीति इत्याह आह वा अश्वः अश्ववृषाः वृषा पर्जन्यः पर्जन्यः कृष्णः कृष्ण इव इव खलु खलु वै वै भूत्वा भूत्वा रूपेण रूपेण इव एवैनम् एनपुंसम् समर्धयति वर्षस्य वर्षस्यावरुद्धि अवरुद्ध्या इत्यवावरुद्धिः देवावसव्याः वसव्या देवाः देवाः श्रण्याः देवाः देवाः सपीतयः सपीतय इत्या आबध्नाति बध्नाति देवताभिः देवताभिरेव एवान्वहम् अन्वहम् वृष्टिम् अन्वहमित्यनु अहम् वृष्टिमिच्छति इच्छति यदि यदि वर्षेत् वर्षेत्तावति तावत्येव तावत एव होतव्यम् होतव्यम् यदि यदि वर्षेत् वर्षेच्छ्वः स्वो भूते भूते हविः हविर्निः निर्वपेत् अपेदहोरात्रे अहोरात्रे वै अहोरात्रे इत्यहः रात्रे वै मित्रावर्णौ मित्रावर्णावहोरात्राभ्याम् मित्रावर्णाविति मित्रावर्णौ अहोरात्राभ्याम् खलु अहोरात्राभ्यामित्यहः रात्राभ्याम् खलु पर्जन्यः पर्जन्यो वर्षति वर्षति नक्तम् वा हि हि दिवा वा वर्षति वर्षति मित्रावर्णौ मित्रावर्णावेव मित्रावरुणाविति मित्रावरुणौ एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावयितौ तावेव एवास्मै तस्माहोरात्राभ्याम् अहोरात्राभ्याम् वर्जन्यम् अहोरात्राभ्यामित्यहोरात्राभ्याम् वर्जन्यम् वर्षयतः वर्षयतोऽग्रये अग्नये धामच्छदे धामच्छदे प्ररोडाशम् धामच्छद इति धामाच्छदेः प्रोडाशमष्टाकपालम् अष्टाकपालग्निः अष्टाकपालमित्यष्टाकपालम् निर्वपेत् पपेन्मारुतम् मारुतम् सप्तकपालकम् सौर्यम् सप्तकपालमिति सप्ताकपालम् सौर्यमेककपालम् एककपालमग्निः एककपालमित्येकाकपालम् अग्निर्वै वा इतः इतो वृष्टिम् वृष्टिमुत् उदीरयति ईडयति मरुदः मरुदः सृष्टाम् सृष्टान् नयन्ति नयन्ति यदा यदा खलु खलु वै असौ असावादित्यः आदित्योऽन्यङ् रश्मिभिः रश्मिभिः पर्यावर्तते रश्मिभिरिति रश्मिभिः पर्यावर्ततेथ पर्यावर्तत इति पर्यावर्तते अथ वर्षति वर्षति धामच्छत् धामच्छदिव धामच्छति वै वै भूत्वा भूत्वा वर्षति एता वै वै देवता आह देवता वृष्ट्या आह वृष्ट्या ईशदे ईशदेताः ता एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावतिताः ता एव एवास्मै अस्मै पर्जन्यम् पर्जन्यम् वर्षयन्ति वर्षयन्तित वृथावर्शिष्यन् अवर्शिष्यम् वर्षति वर्षत्येव एव सज रजा वृष्टिम् वृष्टिम् विवः विवहा आद्भिः अद्भिः आधे समुद्रम् अद्भिरित्यभिः समुद्रम् ऋणेति इत्याह आहेमाः इमाश्च चैव एवामोः अमोश्च चापः अपःसम् समर्धयति अर्धयत्यथोः अथो आभिः अर्थो इत्यथोः आभिरेव एवामोः अमोरच्छ रच्छ इति एत्यब्जाः कब्जा असि अब अब्जा इत्यपजाः असि प्रथमजाः जा प्रथमजाबलम् असि समुद्रियम् समुद्रियमिति इत्याह आह यथा यजुः यथायजुरेव यथायजुरिति यथायजुः एवैतत् एतदत् उन्नम्भय इति वर्षाह्वान् वरुषाह्वाम् जुहोति वरुषाह्वामिति वरुषाह्वाम् जुहोत्येषा येषा वै वा ओषधीनाम् ओषधीनाम् वृष्टिवनिः वृष्टिमनिस्तया वृष्टिवनिरिति वृष्टिवनिः तयैव एव वृष्टिम् वृष्टिमा आच्छावयति चावयति ये देवाः देवादिविभागाः दिविभागा इति दिविभागा इति दिविभागाः इति कृष्णाजिनम् कृष्णाजिनमव कृष्णाजिनमिति कृष्णार्जिनम् अवधूनोति धूनोति मे एव एवास्मैः अस्मै लोकाः लोकाः प्रीताः प्रीताः अभीष्टाः अभीष्टा भवन्ति अभीष्टा इत्यभीष्टाः भवन्तीति सर्वाणि छन्दाकंसि छन्दाकस्येतस्याः एतस्यामिष्ट्याम् इष्ट्या मनोच्यानि मनोच्यानीति अनोच्यानि इत्यनोच्यानि इत्याहो आहुस्त्रिष्टुभः त्रिष्टुभो वै वा एतत् एतद्वीर्यम् वीर्यम् यत् यत्कपुत् कपुदुष्णिहा उष्णिहा जगत्यै जगत्यै यत् यदुष्णिः कगुभूः उष्णिः कगुभावन्वाह उष्णिः कगुभावित्युष्णिः कगुभूः अन्वाहतेन अन्वाहेत्यणो आह तेनैव एव सर्वाणि सर्वाणि छन्दागंसि छन्दागस्य वा वरुन्धे रुन्धे गायत्री गायत्री वै वा एषा एषा यत् यदुष्णिहाः उष्णिहा यानि यानि चत्वारि चत्वारि अक्षराणि चतुष्पादः चतुष्पाद एव चतुष्पाद इति चतुः ते पशवः पशवो यथा यथा पुरोडाशे प्रोडाशे प्रोडाशः रोडाशोधि अध्येवम् एवमेव एव तत् अद्य यच्छि अध्यक्षराणि अक्षराणि यत् यज्जगत्या जगत्या परिदध्यात् परिदध्यादन्तम् परिदध्यादिपरि दध्यात् अन्तम् यज्ञङ्गमयेत् उत् द्रष्टुभा द्रष्टुभा परि परिदधाति दधातीन्द्रियम् इन्द्रियम् वै वै वीर्यम् वीर्यम् दृष्टग दृष्टगीन्द्रिये इन्द्रिय एव वीर्ये वीर्ये <Sess> यद्यम यज्ञम् प्रति प्रतिष्ठापयति यदी, स्थापयति न नान्तम् अन्तम् गमयति गमयत्यज्ञे अरज्ञेत्री त्रिते ते वाजिना वाजिना त्री त्रिषधस्थाः सधस्थेति रधस्थेति सधास्थाः इति त्रिवत्या त्रिवत्यापरि त्रिवत्येति परिदधाति दधाति सर्वत्वाय सर्वत्वाय सर्वः सर्वत्वा स्वरूपात्वाय सर्वो वै वा एषः एष यज्ञः यज्ञायते यत्रैधातुयम् त्रैधातुम् कामाय कामाय कामाय कामाय प्रकामाय कामायति कामाय कामाय प्रयुज्यते युज्यते सर्वे एभ्यः सर्वे एभ्यो हि हि कामेःभ्यः यज्ञः यज्ञः प्रयुज्यते प्रयुज्यते त्रैधातवीयेन प्रयुज्यत इति प्रायुज्यतेः त्रैधातवीयेन यजेत यजेताभिषन् अभिजानम् सर्वः अभिजान्नित्यभिजरन् सर्वो वै वा एषः एष यज्ञः यज्ञो यत् यत्त्रैधातवीयम् त्रैधातवीयम् सर्वेण सर्वेणैव एवैनम् एनम् यज्ञेन यज्ञेनाभि अभिचरति चरति सृणुते शृणुत एवैनम् एनमेतयाः एतयैव एव यजेत यजेताभिचर्यमाणः अभिचर्यमाणः सर्वः अभिचर्यमाण इत्यभिचर्यमाणः सर्वो वै वा एष यज्ञः यज्ञायत् यत्रैादवीयम् त्रैघातवीयम् सर्वेण सर्वेणैव एव यज्ञेन यज्ञेन यजते यजतेन नैनम् येन अभिचरन् अभिचरन् स्मृणते अभिचरन्नित्यभिचरन् एतयैव एवयजेत यजेतसहस्रेण सहस्रेण यक्षमाणः यक्षमाणः प्रजातम् प्रजातमेव प्रजातमिति प्राजातम् एवैनत् एन ददाति ददात्येतया एतयैव एवै चेत यजेतसहस्रेण सहस्रेणे जानः इजानोऽन्तम् अन्तम् वै वा एषः एष पशूनाम् पशूराम् गच्छति यः यः सहस्रेण सहस्रेण युजते प्रजापतिः प्रजापतिः खलु प्रजापतिरिति प्रजापतिः खलु वै वै पशून् पशून् असृजत असृजततान् तागस्त्रैधातुबीजेन त्रीधातुबीजेनैव एवासृजत असृजतयः य एवम् एवम् विद्वान् विद्वागस्त्रैधातुबीजेन त्रैधातुबीजेन पृशुकामः पृषुकामो यजते पृषुकाम इति पृशुकामः यजते यस्मात् यस्मादेव एव योनेः योनेः प्रजापतिः पशून् प्रजापतिः प्रजापतिः पशून् सृजतस्मात् दे, तस्मादेव एवैनान् एनान् सृजते सृजत उप उपैनम् एनमुत्तरम् उत्तरकम् सहस्रम् उत्तरनित्यतो सहस्रम् नमति नमति देवताभ्यः देवताभ्यो वै वा एषः एष आवृच्छ्यते वृक्ष्यते यः लक्ष्ये लक्ष्य इत्युक्त्वा उक्त्वा न यजते यजतेऽत्रैधातवीयेन त्रैधातवीयेन यजेत यजेत सर्वः सर्वो मयि वा एषः एष यज्ञः यज्ञो यत् यत्रैधातवीयम् सर्वेणैव एव यज्ञेन यज्ञेन यजते देवता अभ्यः देवता अभ्यः आदृश्यते दृश्यते द्वादशकपालः पुरोडाशः द्वादशकपाल इति द्वादशाकपालः प्रोडाशो भवति भवति ते त्रे त्रयः त्रयश्चतुष्कपालाः चतुष्कपालास्त्रिश्रवृद्धत्वाय चतुष्कपालादि चतुः कपालाः त्रिश्रवृद्धत्वाय त्रयः पुरोडाशाः प्रोडाशा भवन्ति भवन्ति त्रयः इमे लोकाः लोका येषाम् येषाम् लोकानाम् लोका नामात्यैः या उत्तर उत्तरः उत्तर उत्तरो ज्यायाने उत्तरः ज्यायान् भवति भवत्येवम् एवमिव इव हि इमे इमे लोकाः लोकायवमयः यवमयोमध्ये यवमयेति यावंर यवमयः मध्य एतत् एतद्वि वा अन्तरिक्षस्य अन्तरिक्षस्य रूपम् कूपकम् समृद्धि समृद्धि सर्वेषाम् समृद्ध्या यदि वृद्धिः सर्वेषामभिगमयन् अभिगमयन्नव अभिगमयन्नित्यभिगमयन् अभवृद्ध्यति यत्यशम्वत्कारम् असम्वत्कारगम्भिरण्यम् असम्वत्कारमित्यषम्बटकारम् हिरण्यम् ददाति ददाति तेजः तेज एव एवाव ववृन्धे रन्धे तार्प्यम् तार्प्यम् ददाति ददातिपशून् पुशूनेव एवाव ववृन्धे रन्धे धेनुम् धेनुम् ददाति ददात्याशिषः आशिष एव आशिष इत्या आशिषः एवाव वृन्धे वृन्धे साम्नः साम्नो वै वा एषः एष वर्णः वर्णो यत् यद्धिरण्यम् आक्रिमुक्थापदानाम् उक्थापदानाम् धेनुः उक्थापदानामित्युक्थापदानाम् धेनुरेतान् एतानेव एव सर्वान् सर्वानुवर्णान् वर्णानव अवरुन्धे रुन्ध इति रुन्धे द्रष्टा हतपुत्रः हतपुत्रो वीन्द्रम् हतपुत्र आहरत अहरत्तस्मिन् तस्मिन्निन्द्रः इन्द्र उपहवम् उपहवमैच्छत उपहवमित्युपाहवम् यैच्छदत तम् तन्न नोप उपाह्वेद उपा अह्वेदपुत्रम् पुत्रम् मे नेऽवधिः अवधीरिति इति सः सयज्ञवेषसम् यज्ञवेषसम् कृत्वा यज्ञवेषसमिति यज्ञावेषसम् कृत्वा प्रासहाः प्रासहासोमम् प्रासहेति प्रासहाः सोममपिवत् अपि यत् यदत्यशिष्यत अत्यशिष्यत तत् अत्यशिष्यते यदि अशिष्यत तत्कृष्टाः कष्टाहवनीयम् आहवनीयमुप आहवनीयमित्रा आहवनीयम् उपप्रा प्रावर्तयत् अवर्तयत्साहा सा हेन्द्रशत्रुः इन्द्रशत्रुर्वर्धस्व इन्द्रशत्रुरिति इन्द्राशत्रुः वर्धस्येति इति सः स यावत् यावदूर्ध्वः ऊर्ध्वः परा विध्यति परा विध्यति तावति परा विध्यतीति एववि व्यरमत रमत इति यदि वा वा तावत् तावत्प्रवणम् प्रवणमासीदित् प्रवणमिति प्रापणम् यदि वा तावत् तावदि अध्यग्नेः अग्नेरासीत् आसीत् सः सम्भवन् सम्भवन्नग्नेशोमौः सम्भवन्निति साम्भवन् अग्नेशो मावभि अग्नेशो मावित्यग्नीशोमौ अभिसम् समभवत् अभवत्सः स इषु मात्रमिषु मात्रम् इषुमात्रमिषु मात्रम् विश्वङ् इषुमात्रमिषु मात्रमिजीषु मात्रम् इषु मात्रम् विश्वङ्गवर्धत अवर्धत सः स इमान् इमाम् लोकान् लोकानुवृणोद् अवृणोद्यत् यदिमान् इमान् लोकान् लोकानुवृणोद् अवृणोद्यत् तद्वृत्रस्य वृत्रस्य वृत्रत्वम् वृत्तत्वम् तस्मात् वृत्तत्वमिति वृत्रात्वम् तस्मादिन्द्रः इन्द्राविभेद् अपिभेदपि अपि तृष्टाः पृष्टादस्मै तस्मै तष्टाः तष्टावज्रम् वज्रमसिञ्चत् असिञ्चत्तपः नपो वै वै सः स वज्रः वज्र आसीत् आसीत् तम् तमुद्यन्तुम् वै वै तर्हि विष्णुः विष्णुरन्या वन्या देवताः देवतासीत् आसीत् सः सो अब्रवीत् अब्रवीत् एहि इहीदम् इदमा आहरिष्यावः परिश्रावो येन येनायम् अयमिदम् इदमिति इति सः स विष्णुः विष्णस्त्रेधा त्रेधात्मानम् आत्मानम् वि दीनि न्यधर्त अधर्त पृथिव्याम् पृथिव्याम् तृतीयम् तृतीयमन्तरिक्षे अन्तरिक्षे तृतीयम् तृतीयम् दिवि दिवि तृतीयम् तृतीयमभिपर्यावर्तात् अभिपर्यावर्ताद्धि अभिपर्यावर्तादित्यभिपर्यावर्तात् भेद् अभिभेद्यत् यत्पृथिव्याम् पृथिव्याम् तृतीयम् तृतीयमासीत् आसीत् तेन तेनेन्द्रः इन्द्रवज्रम् वज्रमुद् उदयच्छत् अयच्छद् सः विष्णुनुस्थित इति विष्णो अनुस्थितः सोऽब्रवीत् स्ति अस्ति वै वाहिदम् इदम् मयि मयि वीर्यम् वीर्यम् तत् तत्तेः ते प्रदास्यामि दास्यामीति तदस्मै अस्मै प्र प्रायच्छत् अयच्छप्तत् तत्प्रति प्रत्यगृह्णाद् गृह्णादधाह रधामा मेति इति तत् तद्विष्णवे विष्णवेति अधिप्रायच्छत् अयच्छप्तत् तद्विष्णुः विष्णुः प्रति प्रत्यगृह्णाद् गृह्णादस्मासु अस्मास्विन्द्रः इन्द्र इन्द्रियम् इन्द्रियम् दधातु दधात्विति यत् यदन्तरिक्षे अन्तरिक्षे तृतीयम् तृतीयमासीदित् तेनेन्द्रः इन्द्रो वज्रम् वज्रमुद उदयच्छद् अयच्छब् विष्णनुस्थितः विष्णुनुस्थितः सः विष्णुनुस्थित इति विष्णो अब्रवीन्मा माने मे प्रहाः स्ति अस्ति वै वा इदम् तत्ते प्रदास्यामि दास्यामीति तदस्मै अस्मै प्र प्रायच्छत् अयच्छत्तद् तत्प्रति प्रत्यगृह्णाद् गृह्णाद्भिः ब्रह्माधाः अध इति तत् तद्विष्णवे विष्णवेति अधिप्र प्रायच्छत् अयच्छत्तत् तद्विष्णुः विष्णुः प्रति प्रत्यगृह्णात् रंधाद, गृह्णादस्मासु अस्मास्विन्द्रः इन्द्र इन्द्रियम् इन्द्रियम् दधातु तथाप्यति इति यत् यद्दिवि दिवि तृतीयम् तृतीयमासीत् आसीत् तेन तेन इन्द्रः इन्द्रोवज्रम् वज्रमुत् उदयच्छद् अयच्छद्विष्ण्वनुष्ठितः विष्ण्वनुष्ठितः सः विष्णुनुस्थित विष्णो सोऽब्रवीत् ब्रवीन्मा मामे प्रहाहार्येण एनाहम् अहमिदम् इदमस्मि अस्मि तत् तत्तेः ते प्रदास्यामि दास्यामीति इति इत्यब्रवीत् अब्रवीत्सन्धाम् सन्धान्तु सन्धामिति साम् धाम् तुसाम् सन्दधावहै दधावही त्वाम् त्वामेव एव प्रविशानि विशानीति इति यत् इन्माम् माम् प्रविशेः प्रविशेः किम् प्रविशेविधिप्राविशेः निन्माः मा भुञ्जाः भुञ्जा इति इत्यब्रवीत् अब्रवीत् त्वाम् त्वामेव एवेन्धीय इन्धीगतव तव भोगाय भोगाय त्वाम् त्वाम् विषेदमिति इत्यब्रवीत् अब्रवीत्तम् तम् वृत्रः वृत्रः प्राविशद् प्रा अविशदुदरम् उदरम् वै, वै पुत्रः क्षुत् क्षुत्खलु खलु वै वै मनुष्यस्य मनुष्यस्य भ्रातृव्यः भ्रातृव्यो यः य एवम् एवम् वेद वेद हन्ति हन्ति क्षुधम् क्षुधम् भ्रातृव्यम् भ्रातृव्यम् तत् तदस्मै तस्मै प्र प्रायच्छद् प्रयच्छत् तत्प्रति प्रत्यगृह्णात् प्रगृह्णात्रिः त्रिन्माधाः इति तत् तद्विष्णवे विष्णवेति प्रायच्छत् अयच्छत्तत् तद्विष्णुः विष्णुः प्रति प्रत्यगृह्णाद् अगृह्णादस्मासु अस्मास्विन्द्रः इन्द्र इन्द्रियम् इन्द्रियम् दधातु तथा द्विति इति यद् रत्रिः त्रिष्प्रा प्रायच्छत् अयच्छत्रिः त्रिष्प्रत्यगृह्णात् प्रत्यगृह्णात् तत् प्रत्यगृह्णादिति प्रति अगृह्णात् तत् त्रिधातो त्रिधातोरिति त्रिधातोः त्रिधातुत्वम् यत् त्रिधातुत्वमिति त्रिधातुत्वम् यद्विष्णुः विष्णुरन्वतिष्ठत अन्वतिष्ठत विष्णवे अन्वतिष्ठते अतिष्ठत विष्णवेति प्रायच्छत् अयच्छत्तस्मात् तस्मादैन्द्रावैष्णवम् ऐन्द्रावैष्णवकम् हविः ऐन्द्रावैष्णवमित्यीन्द्रावैष्णवम् हविर्भवति भवति यत् यद्वै वा इदम् इदम् किम् किञ्च चतस्मै अस्मैतत् तर्प्रा प्रायच्छत् अयच्छद्जः ऋमानि सामान्य यजोगुंसि यजोगुंसि सहस्रम् सहस्रम् वै वा अस्मै अस्मैतत् तर्प्रा प्रायच्छत् अयच्छतस्मात् तस्मात् सहस्रदक्षिणम् सहस्रदक्षिणमिति सहस्रादक्षिणम् देवा वै वै राजन्यात् राजन्याज्जायमानात् जायमानादपि भयोः अभिभयस्तम् प्रन्तः अन्तरेव एव सन्तम् सन्तम् दाम्ना ताम्नाप अपोम्भन् ओम्भन् सः स वै वा एषः एषोऽपोब्धः अपो ओब्धो जायते अपो ओब्धैत्यपा उब्धः जायते यत् यद्राजन्यः राजन्यो यत् यद्वै वा एषः एषोऽनपोब्धः अनपोऽब्धो जायेत अनपोब्धैत्यनपा उब्धः जायेत वृत्रान् वृत्रान् घन् घनगश्चरेत् चरेद्यम् यम् कामयेत कामयेतराजन्यम् राजन्यमनबोब्धः अनबोब्धो जायेत अनबोब्ध इत्यनप उब्धः जायेत वृत्रान् वृत्रान् घन् घनगश्चरेत् चरेति इति तस्मै एतमै इन्द्रावाहस्पत्यम् अ ऐन्द्रावाहस्पत्यमित्यैन्द्रावाहस्पत्यम् चरण्यः निर्वपेद् उपेदैन्द्रः ऐन्द्रो वै वै राजन्यः राजन्यो ब्रह्म ब्रह्म बृहस्पतिः बृहस्पतिर्ब्रह्मणा ब्रह्मणैव एवै एनन्दाम्नः नाम्नोपोम्भनाद् अपोम्भनान्मुञ्चति अपोम्भनादित्यपाम्भनाद् मुञ्चति हिरण्मयम् हिरण्मयम् राम रामदक्षिणा साक्षादेव साक्षादिति साक्षात् एवैनम् एनम् दाम्नः नाम्नोपोम्भनात् अपोम्भनान्मुञ्चति अपोम्भनादित्यपावम्भनात् मुञ्चतीति मुञ्चति नवो नवो भवति नवो नव इति नवः नवः भवति जायमानः जायमानोऽह्नाहम् केतुः केतुरुषसाः उषसामेति एत्यग्रे अग्र इत्यग्रे भागम् देवेभ्यः देवेभ्योऽपि विदधाति दधात्याजन् आयन् प्र आयन्नित्या आयन् प्र चन्द्रमाः चन्द्रमास्तिरति तिरति आदित्या अघुंशुम् अघुंसुमाः आप्याजयन्ति आप्याजयन्ति यम् आप्याजयन्तीत्याः प्याजयन्ति अक्षितमक्षितयः अक्षितयः पिबन्ति पिबन्तीति पिबन्ति तेन नः गो राजाः राजा वरुणः वरुणा बृहस्पतिः बृहस्पतिरा आप्याययन्तु प्याययन्तु भुवनस्य भुवनस्य गोपाः गोपादिगोपाः प्राच्याम् दिशि दिशि त्वम् त्वमिन्द्र इन्द्रासि असि राजाः उदीच्यामृत्रहन् वृत्रहन्वृत्रहा वृत्रहन्निति वृत्राहन् वृत्रहासि वृत्रहेति वृत्राः असीत्यसि यत्र यन्ति यन्ति स्रोत्याः स्रोत्यास्तत् तद्धितम् झिलम्बे त्रय दक्षिणतः दक्षिणतो वृषभः वृषभ एधि एधिहव्यः हव्य इति हव्यः इन्द्रो जयाति जयाति न पराः पराजयातै जजाताधिराजः अधिराजो राजसु अधिराज इत्यधिराजः राजसु राजयाति राजस्विति राजासु राजयातीति राजयाति निष्वाहि वि भूयाः भूयास्पृतनाः पृतना अभिष्टीः अभीष्टेरुपसद्यः उपसद्यो नमस्यः उपसद्य इत्युपासद्यः नमस्यो यथा यथासत् असदित्यसत् अस्येत् इदेव एव प्रविचे विविचे महित्वम् दिवः महित्वमिति महेत्वम् इवः पृथिव्याः पृथिव्याः परिपर्यन्तरिक्षात् अन्तरिक्षादित्यन्तरिक्षात् स्वराडिन्द्रः स्वराडिति इन्द्रोदमे नम आ विश्वगोवृर्तः विश्वगोऊर्तस्वरिः विश्वगोऊर्त इति विश्वागूर्तः स्वरिरमत्रः अमत्रोपवक्षे अपवक्षे रणाय रणाय चिरणाय अभित्वाशूर शूरणनो नमः नो नमोऽदुग्धाः अदुद्धा धेनवः इति धेनवः ईशानमास्य अस्य जगतः जगतः सुवर्दृशम् सुवर्दृशमीशानम् सुवर्दृशमिति सुमहादृशम् ईशानमिन्द्र इन्द्रतस्थुषः तस्थुष इति तस्थुषः त्वाविद् हवामहे हवाम साता सातावाजस्य वाजस्य कारवः कारव ृत्रेषु ऋत्रेष्विन्द्र डुत्थेश इन्द्रसत्पतिम् सत्पतिम् नरः सत्पतिमिति सत्पतिम् नरस्त्वाम् त्वाम् काष्ठासु काष्ठास्वर्वतः पर्वत इत्यर्वतः यद्यावः द्याव इन्द्र इन्द्रतेः ते शतम् शतकुंशतम् शतम् भूमीः भूमिहृतऋतस्युः स्यूरिति स्युः रत्वाः त्वावज्रिन् वज्रिण्सहस्रम् सहस्रम् सूर्याः सूर्यानु अनुया न जातम् जातमष्ट अष्ट रोदसी रोदसी इति रोदसी पिबा सोमम् सोममिन्द्र इन्द्रमन्दतु मन्दतुत्वायम् ते सुषाव सुषाव हर्यश्व हर्यश्वद्रिः हर्यश्वेति अश्व अद्रिरित्यद्रिः सोतुर्बाहुभ्याम् बाहुभ्याम् सुयतः बाहुभ्यानिर्बाहूभ्याम् श्रूयतो न श्रूयत इति सूयतः नार्वा अर्वेत्यर्वा रेवतीर्मः असधमादः सधमाद इन्द्रेः सधमाद इति सधमादः इन्द्रे सन्तु सन्तु तुविवाजाः तुविवाजा इति तुविवाजाः क्ष्मन्तोजाभिः भे। याभिर्मदेम मदेमेति मदेम मदे उदग्ने अग्ने शुचयः शुचयस्तव तववि युज्योतिषा ज्योतिषोत् उदो वत्यम् किम् जातवेदसम् जातवेदसम् सप्त जातवेदसमिति जातावेदसम् सप्तत्वा हरितः हरितो रथे रथे वहन्ति वहन्ति देव देवसूर्य शोचिष्केशम् विचक्षण शोचिष्केशमिति शोचिः केशम् विचक्षणेति विचक्षण चित्रम् देवानाम् देवानामुत् उदगार अगादनीकम् अनीकम् चक्षुः चक्षुर्मित्रस्य मित्रस्य वरुणस्य वरुणस्याग्नेः अग्नेरित्यग्नेः आप्राः अप्राद्यावापृथिवी द्यावापृथिवी अन्तरिक्षम् द्यावापृथिवी इति द्यावाः पृथिवी अन्तरिक्षकम् सूर्यः सूर्य आत्मा आत्मा जगतः जगतस्तस्थुषः तस्थुषश्च चेति च विश्वेदेवाः एवा ऋतावृतः ऋतावृतऋतुभिः ऋतावृध इत्युतावृधः ऋतुभिर्हवनश्रुतः ऋतुभिर्तृतुभिः अवनश्रुत इति हवनाश्रुतः द्विषम्पायुज्यम् युज्यम् पयः पय इति पयः विश्वे देवाः एवाशृणुत शृणुतेमम् इमघम् हवम् अवम् मे नेये ये अन्तरिक्षे अन्तरिक्षे ये य उप उपद्यपि येष्ठ स्थेतिष्ठ ये अग्निजिह्वाः स्थे अग्निजिह्वा उत अग्निजिह्वा इत्यग्निजिह्वाः उत वायजत्राः वा, यजत्रा आसद्य आसद्यास्मिन् आसद्येत्या आसद्य अस्मिन् बर्हिषि बर्हिषिमालेध्वम् मारयध्वमिति मादयध्वम् ओ द्वितीयकाण्डे चतुर्थः प्रश्नः